गर्गसंहिता खण्डं 5, मधुराखण्डम् अध्यायं ट्वेण्टि फोर् बहुलाश्व उवाच कोपीनां चैव गोपानां दत्त्वा सन्दर्शनं परं मधुरायां किं चकार श्रीकृष्णो राम एव चरित्रं परमम्मिष्टम् श्रीकृष्णबलदेवयोः सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदं श्रीनारद उवाच अन्यच्चरित्रं शृणुदा श्रीकृष्णबलदेवयोः सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदं कोलेन पीडिता लोकाकौशारविपुरा नृप मधुरामाय यु सर्वे सद्विजा दीनमानसाः अश्वमाशुसमारुह्यरोहिणी नन्दनो बलः स्वल्पैः पुरस्सरैः सार्धं मृगयार्थी विनिर्गतः तं नक्त्वाभ्यर्च्यविधिवत्तदङ्घ्र्योः पतिताः पथि कृताञ्जलिपुडावूचुर्हर्षगद्गदया गिरा प्रजावूचुः रामरामभहा भाहो देवदेवमहाबल कोलेन पाडिता सर्वे आगदा शरणम् वयम् दैत्यकंसखकोलो जित्वा कौशारविम् नृपम् कौशारवे पुरे राज्यं करोदि स महाबलः कौशारविस्तद्भयाद्धि गङ्गाधीरं गदो नृपः राज्यार्थं तत्पदां भोजं भजते सुजितेन्द्रियः तत्सहाय्यं गुरुविभो वयं यस्य प्रजाशुभाः पुत्रवत्पालितास्तेन महासौख्यसमन्विताः कोलेनाद्यैव दुष्टेन पीडिता प्रभो प्रभो त्रैलोक्यविजयवीरकंसोऽपि निकतस्त्वया कालो जीवदिदेवेंद्र देवेन्द्र कंसोऽपि रक्षार्थं सगुणोऽसि त्वं भक्तानाम् प्रकृतेः परः श्रीनारद उवाच इति श्रुत्वा वचस्तेषां श्रीरामो भक्तवत्सलः गङ्गायमुनयोर्मध्ये कौशाम्बीं नगरीं ययौ योद्धुम् समागतम् रामम् श्रुत्वा कोलोऽपि निर्गतः अक्षौहिणीभिर्दशभिर्मण्डितश्चण्डविक्रमः चञ्चलाश्वतरम् गाढ्याम् रथे भाश्वतिमिङ्गिलाम् नदीमिवागताम् सेनाम् प्रलयार्णवनादिनीम् वीरावर्ताम् च दाम् वीक्ष्य बद्ध्वा सेतुम् हलम् बलः आकृष्यताम् तदग्रेण मुसलेनाहन दृढम् युगपत्तत्प्रहारेण वीरा अश्वारथा गजाः सर्वदकोडिशभेदुपेषिता फलवद्रणे शेषा प्रदुद्रुवुर्वीराभयार्तारणमण्डलाद एकागी युयूथे यु दैत्यकोलो रामेण शस्त्रभृद गोमूत्रचयसिन्धूरकस्तूरी पत्र धृन्मुखम् सुवर्णशृङ्खलयुक्तम् प्रखचित् कडिबन्धनं श्रवन् मदं चतुर्दन्तम् खण्डाडङ्गारभीषणम् प्रोन्नतं दिग्गजमिव नदत्कालघनप्रभं शिदमङ्गुशमादाय कोल दैत्यराड आगतं भीक्ष्यतं नागं मत्तं कोलेन नोदितं तदाडमुसलेनासौवज्रेणेन्द्रो यधा गिरिं मुसलस्य प्रहारेण विशीर्णो भून्महागजः मृद्धडोनैकवैवाशुदण्डखादेन मैथिल कोहक्रोडमुखो दैत्यो रक्ताक्षपदिदो गजाद चूलं शिक्षेपनिषिदं माधवाय महात्मने मुसलेन तदा रामस्तच्चूलं शतधाच्छिनद काचपात्रं यथा बालोदण्डेन च विदेहराट सहस्रभारसंयुक्तां गदां गुर्वीं प्रगृह्य च बलं तताडहृदये जगर्ज खन्वत्कलः तद्गदायाप्रहारेण कोलं कज्जलवत्तनं मुसलेनाहनन्मूर्ध्नि बलदेवो महाबलः मुसलापदमूर्धाभिपदितोरणमण्डले मुष्टिखादं खादयित्वा तत्रैववान्तरधीयत चपारमाया दैदेयी मदिभीषण प्रलयप्रभवैर्मेखैर् माहा वादप्रणोदितैः अन्धकारं प्रकुर्वद्भिरभूच्छ अन्धकारं प्रकुर्वद्भिरभूदाच्छदिदं नभः जपा पुष्पसमान् बिन्दू नजस्रं रुधिरस्य च मोचयित्वा द बीभत्स वर्षांश्चक्रुर्घनाखनाः पूय मेदोदिविन्मूत्र सुरामांसमन्विदाः दृष्ट्वा ताभिश्च वर्षाभिर्हाकारो बभुवः ज्ञत्वाद तत्कृदा मायां बलदेवो महाप्रभुः मुसलं दीर्घम् परसैन्यविदारणम् सर्वास्त्रघादकम् स्वच्छमष्टधाधुमयं दृढम् सदयोजनविस्तीर्णम् प्रलय अग्निशमप्रभम् बलास्त्रम् मुसलं रे जे भ्रमद् भ्रमदशदिगन्तरे विदार धनान् व्योम्नि निकारं च यथा रविः तद्व्योम्नि प्रगदम् दृष्ट्वा फलास्त्रम् च प्रभुः। स्वभूत्याकृष्य च बलान् मध्ये तान् विददारः नाशम् गदाया मायाम् बलदेवो महाबलः गृहीत्वा भुजा दण्डाभ्याम्भुजदण्डे महोत्कडे भ्रामयन् बालयि पदम् प्रतूलम् स इतस्ततः पादयामस भूपृष्ठे कमण्डलुमिवार्भकः तस्य दैत्यस्य पादेन साब्धिशैलवनैः सह सा। च कम्पे नाडिकामात्रम् सर्वभूखण्डमण्डलम् भग्नदण्डस्थलन्नेत्रो मूर्च्छितो निधनं ययौ कोलो नाम महादैत्यो वृत्रो वज्रहदो यथा तदा जय जय रावो दिवि भूमौ बभूवः देवदुन्दुभयो नेधुपुष्पवर्षा सुरैकृतः युद्धं कोलं खादयित्वा बलदेवोच्युदाग्रजः दत्त्वाथ कौशारवये कौशाम्बीं च पुरीं ततः स्नादुम्भागीरथीम् प्रागाद् गर्गाचार्यादिभिर्वृतः लोकानाम् सङ्ग्रहम् कर्तुम् सर्वदोशक्षयाय च स्नाभयाम् चक्रुरार्यास्ते गङ्गायाम् माधवम् बलम् वेदमन्त्रैर्मङ्गलैश्च गर्गाचार्यादयो द्विजाः लक्षं गजानां वैदेहस्यन्दनानां द्विलक्षकम् हयानां च तथा कोटिं धेनूनाम् अर्बुदं दश शदार्बुदं च रत्नानां भारं जाम्बूनदावृतं रामो दत्त्वा ब्राह्मणेभ्य प्रययौ पुरीम् यत्र रामेण गङ्गायां कृतं स्नानं विदेहराड तत्र तीर्थं महापुण्यं रामतीर्थं विदुर्बुधाः कार्तिक्यां कार्तिके स्नात्वा रामतीर्थे दुजाह्नवीम् हरिद्वाराच्छदगुणं पुण्यं वैलपदे जनः बहुलाश्व उवाच कौशाम्बेश्च कियद्दूरं स्थले कस्मिन् महामुने रामतीर्थमः पुण्यम् मह्यम् वक्तुम् त्वमर्हसि श्रीनारद उवाच कौशाम्बेश्च तदीशान्याम् चतुर्योजनमेव च वायव्याम् सूकरक्षेत्राश्चतुर्योजनमेव च कर्णक्षेत्राश्च षट्क्रोशैर्नलक्षेत्राच्च पञ्चभिः आग्नेयां दिशि राजेन्द्ररामतीर्थं वदन्तिः वृद्धकेशीसिद्धिपीडात् बिल्व केशवनात् पुनः पूर्वस्यां च त्रिभिः पूर्वस्यां च त्रिभिः क्रोश्यै रामतीर्थं विदुर्बुधाः दृढाश्वो वङ्गराजोऽभूत् कुरूपं लोमशं मुनिं दृष्ट्वा जहासतं शशापमहामुनिः विकरालक्रोडमुखोऽसुरोभवमहाकल इद्धं समुनिशापेन कोलक्रोडमुखो भवत बलदेवप्रहारेण त्यक्त्वा स्वामासुरीं तनुं कोलो नाम महा दैत्यपरं मोक्षम् जगामः ततो रामो मन्त्रिभिश्च उद्धवादिभिरन्वितः जग्नुतीर्थजगामाशु यत्र दक्षश्रुतेरभूत् गङ्गाब्राह्मणमुख्यस्य जाह्नवी येन कथ्यते दत्वा दानं द्विजादिभ्य ऊषू रात्रौ जनैः सह ततस्तत्पश्चिमे भागे पाण्डवामधिप्रियम् आहारस्थानकम् प्राप्य रात्रौ वासम् चकारः तत्र दानम् द्विजादिभ्यो दत्त्वा सद्गुणभोजनम् ततो योजनमेकम् च देवम् माण्डूकसञ्ज्ञाकम् तपस्तप्तम् महत्तेन चान्दे देवकृपाप्तये तदर्थं स्वसमाजेन बलदेवो जगामः ऊर्ध्वास्यमेकपादास्तम् ऊर्ध्वास्यमेकपादस्थम् ध्यानस्तिमितलोचनं स्वभक्तं हृदयस्थं स्वं मूर्तिदर्शनलोलुपं तां तदानन्दस्ततो बाह्ये ददर्शः स दृष्ट्वा नन्देवस्य रूपम् परमसुन्दरम् स्ववेकुण्डलगौरं तालाङ्गरथ संयुतं स्तुत्वा परमया भक्त्या पपादचरणौ पुनः तस्य शीर्षनिकरम् दत्वा वरम् ब्रूहीत्युवाचः यदि प्रसन्नो भगवाननुग्राह्योऽस्मि वा यदि सर्वोत्तमाम् भागवतीम् संहिताम् सुखवक्त्रतः निर्गताम् देहि मे स्वामिन कलिदोषहराम् परां बलदेव उवाच उद्धवद्वारदप्राप्तिर्भविष्यदि तवानख श्रीमद्भागवती कीर्तिरधिकाय कलौ युगे मांडूक का उवाच कथम् भगवदादत्ता मुख्या तस्याधिकारिता कदा योगो मम स्वामिन् कुरु सन्देहभञ्चनम् बलदेव उवाच कथयामि परम् गोप्यम् रहस्यम् परमाद्भुतम् अद्यापि मम सामीप्य उद्धवोऽयम् विराजदे तद्दर्शनं गुरुपरं पारमार्थप्रदायकम् अद्य तीर्थस्य यात्रायामुपदेशो न ते भवेद् यथोपदेष्टा भवति तेन ते कथयाम्यहम् उद्धवस्थापितश्रीमचार्यसंहितामयः नन्दादिव्रजवासिनां गोपीनां प्रीतये कृतः स्वस्वरूपं परिकरं यत्किञ्चित् भगवत्तमम् सर्वस्वभावगुणकम् कृष्णेन परमात्मना उद्धवम् चैव स्वात्मानमेक एवाचरद्विभुः साक्षात्कारम् च परादौ न स्वीयमन्तरम् क्वचित् ज्ञात्वा पूजयामासुरादराद वसन्तर्तुश्च ग्रीष्मोऽपि शमयामासराधाया शोकम् तत्कुण्ठपार्श्वजाः सर्वम् भूमण्डलम् तत्र विचचारव्रजानुगैः वियोगार्तिहरप्रोक्तो गवाम् नन्दादिगोपीनाम् मन्त्राधिकारकुशलसर्वपरिकराग्रणीः अधान्तर्धानवेलायाम् भगवान् धर्मगुप्तनुः तस्मै स्वतैजसमपि दास्यते परमाद्भुतम् मुद्राधिकारं सर्वत्र सर्वदैव विराजते अन्तर्धाने तु, तु स्वस्थाने दत्ता तस्याधिकारिता बदरीस्तं सपरकरं धर्मजम् बोधयिष्यति अर्जुनादिवियोगार्तिहारी सैव भविष्यति वज्रनाभो माधुरे आधुरे सम्भविष्यति श्रीकृष्णस्यैव पौत्रेषु महाराज्ञी गणेषु च वियोगास्ति हरश्चैव स्थाप्यते श्रीहरिस्वयं कौरवाणाङ्गुले राजा परीक्षिदिति विश्रुतः तस्य पुत्रोऽ तेजस्वी विख्यादो जनमे जयः पितुः शत्रुहणम् यत्नम् करिष्यति न संशयः कस्यापि सर्वसामग्री उद्धवद्वारतो भवेद् श्रीमद्भागवतम् दिव्यम् पुराणम् वाचनम् तदा गौरान्वयस्य सम्प्राप्तिर्भविष्यति न संशयः श्रीमत्प्रसादाद् श्रीमत विप्रहर्षेर्मः भागवतोत्तमाद तदधारसर्पयज्ञस्य निवृत्तिः सम्भविष्यति यज्ञसंस्कारकॄणां ब्राह्मणानां च पूजनम् स दासयदि महाराजा ब्राह्मणां शतकम् तथा तदस्त्वाचार्यवर्यस्य श्रीप्रसादस्य जाज्ञया क्षेत्रमासमेकम् स्थितो भवेत् दत्त्वा दानान्यनेकानि गो महागजवाजिनः रत्नम् वासो ब्राह्मणेभ्यो भोजनम् च यदृच्छया तत्तस्म तत्स्थलास्सोऽपि निवर्त्य गुरुणा सह गङ्गातीरस्थलान् पश्यन्नागमिष्यति सद्वृदः एकचत्र शयाननगरे संस्थाम् करिष्यति सः अनुगः श्रीगुरोराज्ञया तत्र सामग्रीम् साधनैः सह अश्वमेधम् करोति स्म सर्वजेता भविष्यति एकचत्र धरो भूत्वा श्रीगुरो शरणम् गतः ततो गङ्गातडे रम्ये पूर्वस्यां क्रोश्य पञ्चके परमैकान्तरूपेण सेवनं तत्करिष्यति तत्र भागवती वार्ता भवरोगविनाशिनी भविष्यति मुदा युक्ता समाजेषु धर्मिणां तत्र पूर्णसमाजेषु तेषां मध्ये भवानपि शृणोषि भागवद्धर्मम् गन्धा श्रीनिर्मलम् पदम् तपस्तप्तम् मदर्थम् ते तस्मादेतत् प्रकाशितम् एवम् देवम् वरम् दत्त्वा गतो रामः सहानुगः शयानन गगच्छुब्धान्याम् दिशि संस्थितम् स्थानम् गङ्गाधडे रम्यम् कण्डकादुकरे भवद पुष्पवत्या दक्षिणे दु विस्तरेण च तत्र सङ्कर्षणो देव स्थित्वा दानपरो भवद कोटकम् दशसहस्रम् रधानां शतकम् तथा द्विपसहस्रम् काश्चैव दत्सहस्रम् दधौ मुदा तत्र सङ्कर्षणम् देवम् पूजयामासुरादराद देवा समययु सर्वे ऋषयश्च तपोधनाः नमः कोलेशकाय करासुरविकादिने हलायुध नमस्तेऽस्तु मुसलास्त्राय ते नमः नमः सौन्दर्यरूपाय तालाङ्गाय नमो नमः यदि श्रुत्वा स्तु दिं तेषां सङ्घर्षण वरं ब्रुवन्धु सर्वे भवतां यदभीप्सितं द्विजदेवा ऊजुः यदा यदा पदयुक्दा स्मरामो भवदपदं पदम् सर्वबाधा विनिर्मुक्ता राम उवाच यदा यदा मां स्मरथ तदा संशरणागतान् रक्षितास्याम् कल्लौ नून मिति सत्यं वजो मम अत्र स्थले वरं प्राप्तं पूजितं मुनिभुङ्गवैः अधसङ्घर्षणस्थानं भविष्यति कलौ युगे येऽस्मिन् स्नास्यन्ति गङ्गायां देवान् सम्पूजयन्ति ये, देवान ये दास्यन्ति दानं विप्रेभ्यो भोजनं कारयन्ति ये विष्णुं सम्पूजयन्ति स्म सफलं जीवितं क्षितौ हेयान्ति दैवतस्थानम् कामी प्राप्नोदि कामना तदपरिवृदो राम स्वाम् पुरीम् सञ्जगामः कोलरक्षोवधम् कृत्वा स्नात्वा विष्णुपदी जले रामस्य बलदेवस्य कथाम् यच्छृणुयान्नरः सर्वभावविनिर्मुक्त सयादि परमाम् गतिम् इति श्रीमद्गर्गसंहितायाम् मधुराखण्डे कोलदैत्यवधो नाम चतुर्विंशोऽध्यायः ओ बहुलाश्व उवाच अकस्मादागतिरामे तत्र तीर्थमिदम् श्रुतम् अहो मधुपुरी धन्या यत्र सन्निहितश्च सः मधुरा यास्तु को देवः कः क्षप्ता कश्च रक्षदि कश्चारको मन्त्रिवरकैर्भूमिस्तत्र सेविता श्रीनारद उवाच परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् हरीः स्वयं हि मधुरानाथकेशवक्लेश साक्षाद्भगवदप्राप्तकपिलायद्विजाय च कपिलप्रदव्यम् वै प्रसन्नशदमन्यवे चित्वा देवान् राक्षसेन्द्रो रावणो लोकरावणः यं स्तुत्वा पुष्पके स्थाप्य लङ्कायां तमपूजयद जित्वा लङ्कां राघवेन्द्रस्तमानीयप्रयत्नदः अयोध्यायां च वाराहमर्चयाम स मैथिल स्तुत्वा रामं च शत्रुघ्नो यमनीयप्रयत्नदः मधुरायामः गुर्यां स्थापयित्वा ननामः सेविदो मधुरै सर्वे सर्वेषां च वरप्रदः साक्षात् कपिलवराह सोऽयं मन्त्रिवरस्मृतः क्षत्ता श्रीमधुरायाश्च नाम्ना भूतेश्वरशिवः पादगिने भक्त्यर्थान् मन्द्रतां व्रजेद चण्डिकादुमहाविद्यादेवी दुर्गार्तिनाशिनी सिंहरूढास्तदा रक्षां मधुराया करोति वदामि वार्तां सर्वेषां श्रीकृष्णाय महात्मने मध्ये वै मधुरादेवी शुभदा करुणामयी बुभुक्षितेभ्यः सर्वेभ्यो ददात्यन्नम् विदेहराड चतुर्भुज श्यामलाङ्गा व्रजन्ति प्रव्रजन्ति च मधुराया मृदम् नेतुम् विमानयि कृष्णपार्षदाः श्रीकृष्णस्याङ्गसम्भूता मधुरा वै महापुरी यस्या दर्शनमात्रेण नरो यादि कृदार्थताम् पुरा विद्धि श्रीमधुरामुपेत्य तप्त्वा तपो वर्षशतम् निरन्नः जपन् हरीम् ब्रह्म परम् स्वयं स्वयम्भुवम् प्रापसुदम् प्रवीणम् भूतेश्वरो देववरः सती पदिस्तप्त्वा तपो दिव्य शरन्मधोर्वने कृष्णप्रसादा नृपराजसत्वरम् तस्या पुरे माधुरमण्डलस्य कृष्णप्रसादादह मे बचारो सदा माधुरमण्डलस्य तदा हि दुर्गामधुरम् प्रयाति श्रीकृष्णदास्यम् प्रकरो दिनून्यम् तत्त्वा तपश्चक्रपदम् च शक्रः सूर्यो मनुं नित्यनिधिं कुबेरः पाशीजपाशं समवाप्य सम्यङ् मधोर्वने विष्णुपदं ध्रुवश्च तथाम्बरीषः समवापमुक्तिं सोमोक्षयं वा लवणाजयं च प्रकृष्टसिद्धिं किल चित्रकेदुस्तत्वा तपोत्रैव मधोर्वने च तत्त्वातपोत्रैव मधुर्वने शुभे भूत्वा बलिष्ठश्च मधुर्महासुरः श्रीमाधवे मासिजमाधवेन युयोधयुद्धे मधुसूदनेन सह सप्तर्षयः श्रीमधुरां समेत्य तत्त्वातपोत्रैव च योगसिद्धिं प्राभुः परे वै गोकर्णवैश्योऽपि महानिधिं च तत्त्वास्तपोत्रैव मधोर्वने शुभे विजित्य देवान् दिवि लोकरावणः निधाय रक्षांसि विधाय मन्दिरमास्ताय लङ्कां विरराजरावणः तत्त्वात्तपोत्रैव मधोर्वने शुभे गजाह्व येषोमिधिले शशन्तनुः लेभे सुदम् भीक्ष्ममदीव सप्तम तत्त्वार्थवारां निधिकर्णधारम् बहुलाश्व उवाच मधुरायाश्च माहात्म्यं वद देवर्षि सत्तमं निवासे किं फलं प्रोक्तम् मधुरायाः सदां नृणां श्रीनारद उवाच आदौ वराहोधरणीं निमग्नां महाजले प्रोज्झितवीजिशङ्गे वपत्मं करेण माहात्म्यमिदं जगाद ब्रुवञ्जनो नाम फलं हरेर्लभेद श्रृङ्गल्लभेत् कृष्णकथा फलं नरः स्पृशन् सदाम् स्पर्शनजम् मधोः पुरि दला स्तुलस्य दल गन्धजम्फलम् पश्यन् हरेर्दर्शनजम् फलम् स्वतो भक्षंश्च नैवेद्यभव रमापते राजेन्द्रहन्तानि जगोत्रपादगीत्रैलोक्यहन्तापि च कोटिजन्मसु राजन् शृणुत्व मधुरा निवासदो योगीश्वराणां गतिमाप्नुयान्नरः पादौ ज्ञौ न गदौ मधोर्वनं हृष्यौ च धिज्ञेन्न कदापि पश्यदः कर्णौ च धिज्ञौ शृणुदो च धिज्ञा न करोत्यलं द्विसप्तकोटीनि वनानि यत्र तीर्थानि वैदेहसमास्थितानि एकैकमे देषु विमुक्तिदानि वदामि साक्षान् मधुरां नवामि गोलोकनाथपरिपूर्णदेव साक्षात्सङ्ख्याण्डपदि स्वयं हि श्रीकृष्णचन्द्रोवततार यस्यां तस्यै न मोन्यासु पुरीषु किं वा यन्नाम विनिहन्दि तत्क्षणम् भवत्यलम् या, या गृणतो विमुक्तयः विधिषु विधिषु च मुक्तिरस्यास्तस्मादिमाम् श्रेष्ठतमाम् विदुर्बुधाः का स्यादिबुर्यो यदि सन्धिलोके तासाम् तु मध्ये मधुरैव धन्या या जन्ममौञ्जीव्रतमत्युदारायर्नृणाम् चतुर्धा धादिमुक्तिम् पुरीश्वरीम् कृष्णपुरीम् व्रजेश्वरीम् तीर्थेश्वरीम् यज्ञतपोनिधीश्वरीम् मोक्षप्रदाम् धर्मधुरन्धराम्बराम् मधोवने श्रीमधुराम् न मम्यः शृण्वन्ति माहात्म्यमिदम् मधोपुरः कृष्णैकचित्तानि यताश्च यत्र ये व्रजन्ति ते तत्र परिक्रमाद्भलम् वैदेहराजेन्द्रन चात्र संशयः कण्ठं त्विधं श्रीमधुरा पुरस्य ये शृण्वन्ति गायन्ति पठन्ति सर्वतः इहैव तेषां हि समृद्धिसिद्धयो भवन्ति वैदेहनिसर्गदा सदा कृसप्तकृत्वो बहुवैभवार्धिनः शृण्वन्ति चैनं नियताश्च ये तेषां बृहद्वारमलङ्करोतिः भृङ्गावलिकुञ्जरकर्णताडिता विप्रोधविद्वन्विजयी नृपात्मजो वैश्योनिधीशो वृषलोऽपि निर्मलः श्रुत्वेदमारा च मनोरथो भवेत् स्त्रीणां जनानामधिदुर्लभोऽपिः निष्कारणो भक्ति युदो युधोमहीतले शृणोति चेतम् हरिलग्नमानसः विजित्य विघ्नान् प्रविजित्यनागपान् गोलोकधामप्रवरम् प्रयाति सः इति मधुरा मधुराखण्डे मधुरामाहात्म्यम् नाम पञ्चविंशोऽध्यायः ओम्